Oh uh... हनुमते पुरोडागमष्टाकपालं निर्वपतिधेनक्षिणाय प्रत्यन्त्यायावशीयन्ते तन्नैरमेकपालं कृष्णं वासः कृष्णतोषं दक्षिणा वेहि स्वाहाहुषा ने भागो भूदयसिकालादित्यं च निर्वपति दक्षिणाज्ञा वैशिष्ट ी दक्षिणायि दक्षिणात्मैजमयीभो दक्षिणैन्द्रा ग्रन्थादशपालं वैश्वदेव दक्षिणा सौम्यज्ञमागन्तलं वा स्वक्षिणा सरस्वते चलं वि क्षिणा आग्नेयमष्टाकपालम् निर्व्रपति सौम्यम् चलकम् सा भित्रम् द्वादशकपालकम् चरं सारस्वतम् चलम् पौष्णम् चलम् मारुतकम् सप्तकपालम् वैश्वदेवी मामिक्षायाम् द्यावापृथिव्यमेककपालम् ऐन्द्रायकमेकादशकपालम् वारुदेवामिक्षाम् वारुणेवामिक्षाङ्कायमेककपालम् प्रधास्याने हवामहे मरुतो यज्ञवाहसः करम्भेन सजोषसः मोषोण इन्द्रपृत्सु देवास्तु स्मते सुष्मिन्नवया महेशिरस्य मेघुषो यज्ञा हरिष्पतो भवतो वन्दते गीः यद्ग्रामे यतलङ्गे यत्सभाया यदिन्द्रिये यच्छोद्रे यदर्यलेनश्च कृमा वयम् यदेकस्याधिधर्मणिपस्या वैदनमधिस्वाहाक्रम् कर्म कर्म कृतः सह वाचामयोभुवा देवेभ्यः कर्म प्रेतसुदानवः अग्नयेणेकपदे पुरोणागमष्टाजपानम् निर्वपति साकगुं सौर्येणाह्य मरुभ्यः सान्तवरेभ्य मध्यन्तिरे जलम् मरुध्य मेथेभ्यः सर्वासाम् युद्धे सायञ्चरम् देहि मे ददामि दे निमेधे विनिते दधे निहारमिन्निमे हरा निहारन्निहरामि ते मरद्भ्यः केणेभ्यः पुरोडाशकम् सप्तकपालम् निर्वपदि सागकम् गौर्येणाद्यता भट्टाकपालन्यर्वपदि सौम्यम् चरकम् सारित्रम् द्वादश कपालकम् सारस्वतम् चलम् पौष्टम् चरुमयेकादशकपालभैन्द्रम् चरुम् वयेश्वकर्मणमेककपालम् सोमाय पितृते पुरोटाशकं षट्कपादन्यर्वपदि पितृभ्यो परिषिषद्भ्यो धानाः पितृभ्याग्निष्वास्तेभ्योऽ्यायेतुभ्ये पन्थमे दत्ते तदगे दत्त्वा दत्ते पितामहः प्रपितामहगे दत्त्वाम् मन्दुं सुषन् दृशन् द्वा वयम् न्विन्द्रदेहरी अक्षन्न मे मदन्त ह्यव प्रियाधोषदा अस्तोषदः स्वभावभोरि प्राणविष्ठयामी रोन्विन्द्रदेहरी अक्षम्पितरो मे मदन्तपितरोति तृपन्तपितरो मे मृजन्तपितरः हरेतपितरः स्वाम्याजम्भीरे पतिभिः पूर्व्यैः अथा वित्रयम् स्वपि राजम् अपीतयमे नेतधमादम् वदन्ति मानोन्वाहुवामहे आरागुम् श्रेणस्तोमेन पितृणाञ्च मन्मभिः आनरे पुनः क्रत्वे दक्षाय जीवसे योक्तसूर्यम् दृशे पुनर्नः पितरोम नो ददातु दैव्यो जनः सन्दर्क्षम् पृथिवे मुद्याञ्जन्मातरम् पितरम् वार्येयुम्सिमा अर्जमातस्पादेन सौ कार्यः पत्यः प्रमञ्जविधायानि च कर्म करोतु निर्ववर्त्यै गमतिरिक्तम् जावन्तो वृत्याभ्यक्रमकरम् पशो नागम् शर्माभिैक एव रुद्रो न द्वितीयाञ्जुरस्वैषज रुद्रभागस्यास्पष्टाम् विगया सञ्जुरस्वभेडजम् भवेश्वायभोराय भेडलमस्मभ्यम् भेडजगम् सुखम् मेधाय मेष्या अवाम्बरुद्रपति मह्यवधेमन्त्र्यम्बकम् यथा श्रेरसकराद्यथा नोऽवश्य सकलाद्यथा नसुमधकराद्यथा नाव्यवसायम्बवे यजामहे सुगन्धिम् पुष्ट्यवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृधाय एष ते रुद्वभागस्तम् विशस्पतेन वदेन परोमोचमतो जेह्यपतदहन्वापिना जहस्तृप्तिवासाः ्राग्नम् द्वादश कपालं वैश्वदेवञ्चलमिन्द्रायशदासीराय प्रोटाशं द्वादश कपालम् वायव्यम् पयः सौर्यमेकगपालम् द्वादश खलु देदम् दक्षिणाग्नेयमष्टागपालन् ृणेत्रा उत्तर वरुणने उपरिषेत्रा लक्ष्मस्ते नन्दुदे नन्दते भो नस्त्रे भृस्वाहासमोढुं रक्षन्दग्धुं रक्षहितमागं रक्षोऽभि सन्दहाय श्वोऽ स्वाहायमारथमित्रे वरुणाय बृहस्पदय बृहस्पदे श्वे स्वाहा वृष्टिभागे रसोदय देवस्य प्रसवेश्वा बाहुभ्याम् भागुम् रक्षसो वधन् जहोमि हतगम् रक्षो बहि स्म रक्षो यद्वस्ते तद्दक्षिणा त्रे पुरोडा शन्वादश कपालन् निर्वपत्यै जरुकुम् रागायै चरकुम् शिने बाल्ये चरम् कुक्वै चरुम् विशनौ भ्रदक्षिणा गोमा पौष्ठञ्जलम् निर्ववत्येन्द्रापौष्टञ्चलम् पौष्टञ्चलग्नश्यामो दक्षिणा वै स्वान्द्वालजगवान निर्ववधिरण्यम् दक्षिणा स्पत्यञ्चलम् निर्वपतिर्ब्रह्मणो गृहे चिरिपृष्ठो दक्षिणेन्द्रमेकादशकपालकमराजन्यस्य गृहर्णभो दक्षिणादित्यञ्चलम् महिष्ये गृहे गृहे कृष्णानाम् नगर्भिन्नम् कृष्णा कोटा दक्षिणा मेघमष्टागपालकुम् सेनान्यो गृहे हिरण्यम् दक्षिणा वार्णम् दशकपालकम् सूतस्य गृहे निरष्टौ दक्षिणामारुतगं सप्तकपालङ्गामेवस्तो दक्षिणा गृहे श्रमो दक्षिणारौत्रङ्गामे पुरो राजमे जगमानं प्रतिनिर्वपतेन्द्रायां होम तन्नो राजा वृत्रह राजा भूत्वा वृत्तवाय स्वयं भवति य कर्मा स्वाद्य मेत्रस्वयम् कृता वेदर्भवति स्वयम् दिनम्बर्हि स्वयम् कृतयुद्धस्यैव मष्टाकपालं निर्वपरि कृष्णानां व्रीहीणागुं सोभाय वनस्पदये श्यावाकञ्चलगुं धत्रे जथवाय पुरोडाशं द्वादशकपालवाशूनां व्रीहीणागुं रुद्राय पशुपदगे कापे धुगञ्चलं बृहस्पदगेदगेनैवारञ्चरुमिन्द्राय ज्येष्ठाय पुरोडाशमेकादशकपालं य धर्मपदयेता त्वा प्रभवा नागं सुद्रपशूनां बृहस्पतिष्ठानां सत्यानां वरुण धर्मपदीनां ये देवादेव क्षत्राय माताधिपत्याय महदे जालराज्या एवो भरता राजा सोमोऽस्वागं ब्राह्मणं राजा प्रजत्यन्नाम राज्यमधा यस्वान्तं वरुणो भो मा मन्महि महतस्य नाम सर्वे व्यातावरुणस्याभो वन्ये त्रय वैरराजमताोषदन्त यज्ञयानन् विष्णा क्रान्तमसि विष्णा रिक्रान्तमसि स्थापाजतश्चमान्दा विश्वग्नेजस्या स्थापामोढीराकुमृतस्थापो देवेन्मधुमतेरगह्णन् दोर्जस्वतीराजसूयालचितानाः याभिर्नेत्रावरुणावभ्यभिर्जनयाभिरमनव्यत्यरादेः राष्ट्रदास्थराष्ट्रम् दत्तस्पाहाराष्ट्रदास्थराष्ट्रमौष्मै दत्ता म् मधुमदेर्मधुमदेभिस्रिव्यभ्रह्महि वर्तः क्षत्रियाय वन्वानाधृष्टाः सी सतोऽर्ज्यस्वतिरेर्महि वर्तः क्षत्रियाय दधेरमधि वाचो बन्ध्वस्तपोजाः सोमस्य धात्रमधि शुक्लावः शुक्रेणात्मनामि चन्द्राश्चन्द्रेणामृतामृतेन युम्नेन क्रे वरुणस्तवपाकम् शिष मा कृतवाः सन्तः क्षत्रस्योऽल्प मये क्षत्रस्य योनिरस्याविन्न अर्घिर्घृहवधिरा विन्न इन्द्र वृद्धश्रवा आविन्न पोहा विश्ववेद आविन्दो मेत्रावरुणा वृता वृधा वा विन्दे द्यावा पृथिवी वृता व्रते आविन्ना दे विरितिर्विश्वरो द्याविन्दाय मसा वामुष्पाय विश्वस्मिन् राष्ट्रे महते क्षत्राय महता आधिपत्याय भगता राजास्माकम् ब्राह्मणा नागुम् राजेन्द्रस्य वज्राधिमात्राभ्यस्तजायम् व्रम् वध्या शत्रुपाधराश्च पादमाः प्रत्यञ्चम् पादमा जलियञ्च मन्वञ्चम् मापादभ्यो मा पाद विश्वाः सर्वस्वरक्षाथामधि चिन्तितिम् च ष्ठगायत्रे त्वा छन्दसामवदत्रेन्द्रन्द्रवियं जगते त्वा छन्दसामवद सप्तदशस्तोम वैरोपगंसामवदत्व स्तोमो वैराजगुंसामृणौ देव रामनन्द्रविणमो मातिष्ठपञ्चसामवदत्रैव ते शामने बृहस्पेवाद्रविणमेतम् शुप्रज्योदिष्टिप्रज्योतिष्टहत्यज्योतिष्टज्योतिष्माविष्टहत्यश्च तवास्ताः ग्नये स्वाहा सोमाय स्वाहा समित्रे स्वाहा सरस्वत्ये स्वाहा भोष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा क्षेत्रस्य वदये स्वाहा पृथिव्ये स्वाहान्तरिक्षाय स्वाहाधिरे स्वाहा स्त्वाहेद्भ्यस्वाः वनस्पदेभ्यस्वाः कराचरद्भ्यस्वाः परिप्लवेद्भ्यस्पाः स्वाहा सोमस्य मृत्यो न माहि दृत्योन्मा पाठ्यवे कादन्तशोकानिरस्तन्नमुचय शिरः सोमो राजा वरुणो देवाधर्मसुमष्टये ते ते पाचकम् सुवन्तान्ते प्राणगुं सुवन्तान्ते सुवन्तां गोमस्य त्वाद्युम्नेनाभिविन्द्यान्येस्तेज सा सूर्यस्य वर्तते तस्येन्द्रियेण मित्रावरुणयो वीर्येण वरुतामोचः क्षत्राणाम् क्षत्रपटि अस्य दिवस्पादि समावभृत्रन्न धराकुदि रन्ते स्थापर्वतस्य वृणमस्य पृष्ठे नामश्चरन्ति स्वसिचरियानामलस्मे हुतमसि यमेस्तमसि प्रजापदेनात्मवेदान्यो विश्वा जाता निपरिता बभूव यत्कामास्ते नमस्तन्नो अस्तु इन्द्रस्य वज्राधिमाक्रज्ञजायम् वृत्रम् मध्यान्मित्रावर्णयोस्ता प्रशास्त्रा प्रथिरायि न जज्ञस्य योगेन विष्णा क्रमाधिविष्टा क्रान्तमधिविष्टार्विक्रान्तम् पृथवे देशमाप्तम् मनःसमहमिन्द्रियेण वेद्येण पशूनाम् मन्दिर शुलभे पमे मन्यर्भूजान्नमो मात्रे पृथिव्यैवाहम् मातरम् पृथिवेयम् माता पृथिवी ह्युङ्युरस्यायुम् मेधेत्योर्जस्योर्जम् मेधे हियुङ्गच्चो जिवत्यो मयुधे यज्ञे गृहपदने स्वाहा सोमाय वनस्पदने स्वाहेन्द्रस्य बलाय स्वाहा मरुता मोद स्वाहासुरन्तरे खलद्भ्रोता वेतिषदति चतुरोनशत् ृहदृतसब्जा गोचार सजा अद्रिजा हृतम् बृहत् नृत्राति वरुणोऽसि समहम् विश्वे देलैः क्षत्रस्य नाभिरतिक्षत्रस्य योनिरतिस्यो नामासीर सुरतामासीधमात्माहिकंसेन्माहिगंसेन्द्रियसार धृतव्रतो वरुणः पस्याम् ब्रह्म पगुं राजन् ब्रह्मासि सवितासि सत्य स भो ब्रह्मागुं राजन् ब्रह्मासेन्द्रादि सत्यौजा ब्रह्मागुं राजन् ब्रह्मासि मित्रोऽधिषो ब्रह्मा रघुं राजन्ब्रह्मादि वरुणोऽसि सत्यधर्मेऽङ्गस्य वज्रशिवात्रभ्यस्तेन मेरध्यति शोरा सोमङ्गत्यराज प्र स्वाहात्रय स्वाहापद स्वाहा ष्टाकपालन् नृपति हिरण्यन् दक्षिणाकारस्पदञ्चलं वत्सरे दक्षिणालमृश्यामो दक्षिणाभारञ्चलं शिरे भ्रष्टो दक्षिणेन्द्रमेकादशकपाल मृभो दक्षिणाभारणं दशकपालं महानिरस्तो दक्षिणा सौम्यञ्चलं वै प्रवन्त्रिकपालम् वा मनोदक्षिणा क्षयन्ति सद्य सोमं क्रीणन्ति पुण्डल श्रितां प्रयच्छति तत्सरे सोमं क्रीणाति सर्वे भवति शतं ब्राह्मणा प्राकाशावध्वर्यवेददाक्रेम्भोत्रेष्टम्भतोभ्यान् बाले ब्रह्मणे वशान् मेणाय ्रुभ्राजस्तूर्य वाचिदवच्चा वार्ताया ढ्वाहमग्ने भाग्रवो होदा भवति श्रयन्तीजम् ब्रह्मसामम् भवति वारवन्तीयमग्निर्तामसामकम् सारस्वती नवो आग्नेयमष्टाकपालन्यर्प्रपति हिरण्यम् दक्षिणैन्द्रमेकादश कपाल वृषभो दक्षिणाभयेष्वेवञ्जलम् भिङ्गे पष्ठौ हि दक्षिणाभये वरुणे वामिक्षा वसा दक्षिणाभागस्पत्यञ्चलकंसित पृष्ठौ दक्षिणा जित्याम् प्रदधान् दर्भिणे मानभते भगवती वस्तृभ्याः पदे सत्यवाचे जगकुम्धवित्रे सत्यप्रसमाय पुरोनाशम्पादशकपालन्ति सम्भुम् दुष्कथिनिर्दक्षिणा ष्टाकबालम् निर्मपदि सौम्यम् जलगुंसावेत्रम् द्वादशकपालम् बालस्पत्यञ्जलम् द्वाष्टमष्टाकपालम् वै स्वाजलम् द्वादशकपालम् दक्षिणारसवाहन बाहो दक्षिणाधारस्पदञ्जलम् निर्मपदि पाष्टञ्चलम् मयेतञ्जलम् वारुणञ्जलम् श्रेहेत्रवत्यञ्जलमादेत्यञ्जलमुत्तरारसवाहन बाहो दक्षिणा स्वादे स्वागुना देव्राम् देवेनामृतामृतेन सृजा विषयम् स्ववेन सोमाः शस्यभ्याम् पच्यस्व हरस्वद्देवस्वेन्द्रायशुद्धान् ने पच्यस्व पुतकम् स्वमगम् शौर्यश्च दुहिता बालेण शश्वतातमाः वायः पोतः पवित्रेण प्रत्यहम् सर्वोऽ इन्द्रस्य निजः सखाः कुविदङ्गजवमन्तोजवम् च तान्त्य पूर्वम् वियोज विषाम् कृतभोजनानिम् आश्विनन्धोन्परम् मेधमेन्द्रमट्रमेकादश कपालम् निर्वपदिताम् द्वादश कपालम् वाशकपालम् प्रतीकास्पतरस्त्रप्रदमडवालक्षिणा अर्ज्ञाविष्टोपहितद्वाम् महित्वम् वेतम् खिलस्य गुप्यानि नाम रमे रमे सत्वरत्रा दधा अग्नाविष्णो मिधाम प्रियम् वा वेदोभृतस्य लुक्त्या दमे, दमे प्रतिवान् जक्वाभृतमुच्चरण्ये प्रणो देवे सरस्वती वाजेभिर्वाजिनेपते धी नाम विद्यवतो आनो दिवो बृहतः जतादन्तु यज्ञम् भवन् देवीति जुषाणाघृताजे शग् नो वाचमुषती शृणोतु बृहस्पते जुस्व नो हव्यानि विश्वदेव्या रास्वरत्राणि दाशुषे देवामित्रे विश्वदेवायवृष्णे यज्ञेर्भिधे मनमसा हविर्भिः बृहस्पते तु प्रजा वीरवन्तो वयज्ञस्या मुजोरयेणाम् बृहस्पति अलियतुमद्विभाति क्रतुमज्जनेषु यद्येत यत्तप्रजातस्मानुग्रविणन्धे हि चित्रम् आनो मित्रावरुणाधितेर्गव्योतिमुक्षतम् मध्वरजाकंषि सु प्रभावादिशतम् देवसेन आनो गव्योतिमुक्षतम् आरोजने श्रवयतञ युवानाश्रुवम् मे मेत्रावरुणा हवेम अज्ञम् वः पूर्ण्यम् गिरा देवमी देवसूरा सपर्यन्तः शूरो वा वृत्सुवासुचित् देवाना इयिन्मनो यजमान इयक्षत्यभिदयज्वलाभुवत् न यजमानरिष्यन्वाननदेवयो असदत्वसुवीर्यभृतव्यथाश्वयम् न कष्टम् कर्म नानशम् न प्रयोषम् न योषति उपक्षरम् त्रिसिंहवोमजो भुवजी जानम् च यक्षमाणम् धेनवः प्रणन्तम् च बपुलम् च स्वभस्यवो भृतस्य विश्वतः सोमा रुद्राविदृढतम् विशु जीवमी वाजानो गजमाविवेश निर्मितिम् पदा चैः कृतम् चितेन प्रमुक्तमस्मत् सोमा रुद्रायममेतान्यस्मै विश्वा तनोषु भेदजानि धत्तम् अवश्य तम् मुञ्चतन्व अस्ति तनोषु भग्नम् कृतमेनो अस्मत् सोमा पोषणा जननारयीणा जनना पृथिव्याः जातो विश्वस्य भुवनस्य गोपो देवा कृण्वन्नमृतस्य नाभिम् इमौ देवो जायपादोऽषन्ते मौ तमागुंसि गोभधामजुष्टा आभ्यामिन्द्रपक्वभावः सन्तः सोमा गोढभ्यहम् जनदुस्त्रियासु ओ इति प्रथमकाण्डः